षष्ठकाण्डे षष्ठप्रश्नः प्रारम्भः ओ... य वा एतानि लोकाय हूयन्द्रेयत्ताक्षिणानित्वाभ्याङ्गारः प्रत्येजोप्रतिष्ठे त्रेजोःत्यन्तरिक्ष एवाक्रमते च लोक्यैजसवर्गमेवैनं लोकङ्गमयति गौरीभ्या मृग्याङ्गारः प्रत्येजोत्यमुमेवैनं लोकमसमारोहयिदमेवत्यश्चाग्ने त्रेजो जतुवर्गस्य लोकस्याभिनीत्यैजवङ्गच्छ हत्वा गृह्णातिवर्गमेवैन लोकङ्गमयति रूपेण वा रोपमभ्येमीत्याहरूपेण तथा वा विश्वमेधा विभजतृत्याह तथा हस्मै विश्वमेधा देवानां दक्षिणां विभजत तेनैवुतमित्याहसोमश्रुत ग्रह्यस्य राध ऐति तन्त्रस्य पथा नयेत्याहशान्त्या प्रेतचन्द्रदक्षिणा इत्याह सत्यं वा रथगो क्षिणार्षिरां तस्मादेवरिक्षमित्याहतवर्गमेवैकङ्गमयस्वतस्यैरित्याहमित्रत्वायास्मत्तादेवत्रागच्छत मधुमने प्रदामाविशतेहमयमिह प्रदातारस्मास्मानमत्र मधुमतेराविश गस्य लोकस्यानुख्यात्याग्ने ददात्यज्ञमुखानेवर्तोऽन् प्रीणादिब्रह्मणे ददातिप्रसोहोत्रे ददात्यात्मा वा एष यज्ञस्येदात्मानमेव यज्ञस्य दक्षिणाभिस्मर्थयति जुहोति यज्ञस्य समिष्टे यद्वय यज्ञस्य क्षोरञ्जयन्नात्येवस्सं यज्ञे इमे लोकामानेव लोकान् प्रीणादि यज्ञ यज्ञं गच्छिङ्गच्छेत्यापजमेवैमेत्या हि स्वामेवैन िङ्गमयत्येषते यज्ञो यज्ञपते सहसोक्तवाकस्वीर्यान एव वीर्यम् दधाति वा दृष्टा हदाच्य हव्यादेव भागम् पप्रच्छयान् बहुयाजिनो यै यदो दृष्टिवा सच्चात्ते सञ्ज्ञः पराबहो वृतः प्रतिष्ठाप्य आसीत् यजमानस्यापराभावाय देवाघातुमिद घातुम् वित्त्वा ेवी दिशामवै रक्षाः रक्षसामवहत्यैत्रै त्रि इमे लोकायेभ्य एव लोकेभ्यो रक्षान्ति पुरुषस्पुरुषो निधनमुपुरुषस्पुरुषो हि रक्षी रक्षसा वहत्या वर्णश्चकारेत्याः प्रतिष्ठिते शदन्ते राजन्विषदस्सहस्रमित्याह भेषदमेवास्मैकरोत्यस्यैव चक्षुषीनान्तरे तिवर्णं युजि वर्णपाशा देवैनं मुञ्चत्यग्निवर्णो यजि साक्षादेवैपा जो यजि प्रजा वै बर्हि प्रजा एव प्रतिष्ठत्यवृथ चन्दुनेत्याहोन्दरत्याः समुद्रे सुन्दरवरुणस्सन्दान्तोषधीर्तापैत्या आत्मेवै नेभैत्या ेन गृह्णी याद्यन्न भक्षयेत् पशुष्यान्नैनं वरणा गृह्णीयाद्वस्तुष्यमेव पशुमान्भवदिनैनं वरणागृह्णाति प्रतियितो वर्णस्य वाचि वर्णवासा एव निच्यते प्रतीक्षमायन्ति वर्णस्यान्द्रहित्यायेति श्रीमहि समिधैवार्यन्नमस्यन्त उपायञ्जितेजोऽसितेजो देहीत्याहतेज एवात्महते क्षेत्रकामस्य दशनसंहिता संहितामिन्द्रियकामस्य सर्वान् समान्ष्ठाकामस्यैतान् स्य समष्टीयदेकस्मिन् र्योपयस्मान्यकामोपदिन्दनेयं कामयेद स्त्रियस्य जायेते पान्दे तस्य प्रतिशदे स्त्रिये वास्य जायतेय कामयेदपमानस्य जायेतेत्यान्दस्य प्रये स्त्रियम् एवास्य जायते सुरावी देवान् दक्षिणोपमानयन्तान् देवा उपशये नैपामदन्तोपशयत्न यद् दक्षिण उपशय उपशये भादुव्यापनत्ये तेवान्येयुपाशु स्मै पशुन् विश्वादाकृष्टे प्रन्नजापदिनाद्यमर्धयद्भवन्ति एकादशः स न एवासीसदुः एवैनान्ते न वज्रोवा एषा संमीयते एकादशनीतेश्वरा पुरस्ता यज्ञतो यज्ञस्य प्रत्युत्तद्वितयत्थाया जा असृजतो मन्यतस एतामेकादशिनीमपश्यत्तया वै स आयुरिन्द्रियं प्रजा, प्रजा इव खलु वा एषतेषैकादशिनी भवत्यायुरेव आत्मन्धत्ते मिथुनसंसारस्वत्याकरोत सौम्येन दधाप्रजनयति बोष्णेन पारहस्वत्या भवति ब्रह्म दे वै देवानां प्रजलयति वैश्वदेवो भवति वैश्वदेव्या वै प्रजा प्रजा एवास्मै प्रजलयतीन्द्रियमेवैन्द्रेणावर्धे विषं मारुते पुरस्तादैन्द्रस्य वैश्वदेवमानभदेवैश्वं वा अन्नमन्नमेव पुरस्तात्तत्येतस्मात् पुरस्तादन्नमध्यत इन्द्रमानभ्यमानभदेविद्वै मृत विश्वमेवास्मान् इति कामयेदयोऽवगतस्वापरुध्यता योऽपरुद्धस्वावगच्छत्यैन्द्रस्य लोके वा ऋणमालभेद वा ऋणस्य लोक एवावगतस्वापरुध्यते योऽपरुद्धस्वापगच्छति इति कामयेद प्रजामुख्यैर्तिपुशोन्यो गृह्णीयाध्यक्षरतोलभदेपवाहतोपाम् प्रजानामवरणग्राहाय इन्द्रः पत्नीयामुयाये यज्ञं प्रतिष्ठन्तप्रतिष्ठतिष्ठम् एव प्रचलत्य श्रयामस्मात्र भव दश्वासिक्तस्य रूपाणि विकरोति तमेव पुरुषाणम् मध्येष्वचितवास्मेरूपाणि करोति न्ति वा एतत्सामन्यदपि शृण्वन्ति यत् सौम्या भवति यथा मृतायानुक्स्वायामेव तस्यैवन्दे पवित्रं वै सौम्य आत्मानमेव आत्मानन्न परिवर्श्ये तादृश्यादपि भाव तस्मिन्नह्यात्मानम् परिवश्यत्यथ आत्मानमेव पवयते यावमना स्यात् स्ववेक्षेतयन्येव न परागतम् यद्वामेव परागतम् ोमे नद्वयमस्मासु धारयामसीदिधारो भागुंशी समत्पाय ब्रह्मवादिना वदन्ति मित्रो यज्ञस्य स्वेष्टं यो देवरुणो धरिष्ठन्मये भवती मालभते मित्रेणैव यज्ञस्य श्रेष्ठवृणेन नार्तिमार्चयमानो यथा वैलाङ्गलेनोपरान्द्रभिन्दन्त्येव मृच्छा मे यज्ञम् प्रभिन्दो युन्मे त्वा वृणीम् दशा मालभते यज्ञायैव प्रभिन्नाय मत्यवास्य दृशान्ते यादया मास्य छन्दानुसन्दधा यद्दशा इन्मेत्वा वृणीमसा मालभते छन्दागस्येव पराप्रणादयामत्वाय सन्दस्येव सन्दधाति वा इन्द्रियं वा एतत् स्तस्य यज्ञैत्यापश्यन्तानगृह्णताज्ञेरीन्द्रन्द्रौर्यो यस्तै ्यावृतमगच्छति सेवं विदुष एते व्यावृतमेव पाप्मना प्राच्छति इमे लोकात् ज्योतिष्मन्दसमावद्वीर्याः कार्या इत्याहुराज्ञेयेनास्मिन् लोके ज्योतिर्धत्त इन्द्रेणान्तरिक्षेन्द्र वायुः श्रीजौ शौर्येणामस्मिन् लोके ज्योतिर्धत्ते ज्योतिष्मन्दास्मा इमे लोका समावद्वीर्यानेनान् कुरुत एतान् वैग्रहायसा पवित्तान्ता परां जश्चार्वाञश्च प्रा भर्यं विदुष एते ग्रहा गृह्यन्ते प्रास्मा इमे लोकास्पराञ्जश्चार्वाञश्च भान्ति देवा वै यज्ञे कुर्वतरे देवाभवन्मनासुरायस्यैवं विद्वै देवासुरानदाभ्येनादग्नय्य एवं वेदेव भ्राद्रु यन्नै नदृयोत्येषा वै प्रयामने रमोक्षिणै नामोर्यस्य बृह्णा त्यादिपात्मानम् रागुयम् एवम्बन्ति स्थापयन् युंशोऽपि दृश्यते यज्ञस्य सन्दत्यै देवा वै प्रवाहाण गृह्णस एतं प्रजापति रघुंशमवश्यं कृतविषुना औदुम्बरेण गृह्णातु ृध्येवानम् वै हिरण्यमाय प्राण आयुषैवामृतमभिधनायुशतमानम् भवति शताय पुरुषस्यतेन्द्रियायुष्येवेन्द्रिये प्रतिष्ठति जापि दद्येवेभ्यो यज्ञानी गृह्यत इन्द्रियमेव तद् वीर्येभ्यो वैदवर्गो लोको न प्राभवत्त एतकंषाढशिनपश्यन्तर्गो लोकप्रभवत्य स्याभिज्यामस्य गृह्णी याज्रोडी पशवस्तृतीयसवनं वज्रेणैवास्मि तृतीयस्य गृह्णीयात् जोपज्रेणैवास्मि पशो नरात्रयोपरिष्टाक्षम यत्यप्यग्निष्ठोमेराजिन्यस्य गृह्णीयात् यामोहिराजिन्य साह्म एवास्मि वज्रं गृह्णा ऋषये भवत्या देवा यच्छन्दैरा यच्छन्दोभिस्यैव तल्लोकं वृन्दे षडक्षरान्यतिरेचयन्ति षट्वादव रिपूर्वाण्यवकल्पयन्ति चतुष्पद एव पशुनवृन्दे उत्तरे त्रिपद एवावृन्दे नृष्टपमपि सम्पादयन्ति षष्ठकाण्डे षष्ठः प्रश्च समाप्तः षष्ठकाण्डश्च समाप्तः